वैशम्पायन उवाच हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ब्रह्मणो मानसाः पुत्राविदिताः षण्महर्षयः मरीचिरत्यङ्गिरसौ पुलस्त्यः पुलः क्रतुः मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश अदितिर्दितिर्दनुः कालादनायुः सिंहिका तथा क्रोधाप्राधा च विश्वा च विनता कपिला मुनिः कद्रूश्च मनुजव्याघ्रदक्ष कन्यैव भारत एतासाम् वीर्यसम्पन्नम् पुत्रपौत्रमनन्तकम् अदित्याम् द्वादशादित्याः सम्भूता भुवनेश्वराः ये राजन्नाम तस्तांस्ते कीर्तयिष्यामि भारत धाता मित्रोर्यमाशक्रो वरुणस्त्वंश एव भगो विवस्वान् पूषा च सविता दशमस्तथा एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः एक एव दितेः पुत्रो हिरण्यकशिपुस्मृतः नाम्ना ख्यातास्तु तस्येमे पञ्च महात्मनः प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम् अनुह्लादस्तृतीयोऽभूत् तस्माच्च शिबिबाष्कलौ प्रह्लादस्य त्रयः पुत्राः ख्याता सर्वत्र भारता विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत विरोचनस्य पुत्रोऽभूत् बलिरेकः प्रतापवान् बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः रुद्रस्यानुचरः श्रीमान् महाकालेति इयम् चतुस्त्रिंशद्वनोः पुत्राः ख्याता सर्वत्र भारता तेषाम् प्रथमजो राजा विप्रचित्तिर्महायशाः शम्भरो नमुचिश्चैव पुलोमा चेति विश्रुतः असिलोमा च केशी च दुर्जयश्चैव दानवः अयशिरा अश्वशिरा अश्वशङ्कुश्च वीर्यवान् तथा गगनमूर्धा च वेगवान् केतुमांश्चसः स्वर्भानुरश्वोश्वपतिर्वृषपर्वाजकस्तथा अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः इषुपादेकचक्रश्च विरूपाक्षो हराहरौ निचन्द्रश्च निकुम्भश्च पुपटः कपटस्तथा शरभः तथा